श्रीमद्भागवतमहापुराणं चतुर्थीस्कन्ध य पञ्चवरसो जननिमित्तं विहाय मातुः सपत्न्या वचता भिन्नमर्मा वनं गतस्तवशा प्रत्यगच्छ आराध्यलेभे मृध्निपदं त्रिलोक्याः तवेन मङ्गात्मनिमुग्धविग्रहे विपासितं निर्गुणमेकमक्षरम् आत्मानमन्विक्ष्य विमुक्तमात्मजे यस्मिन्निदम् भेदमसद्प्रतीयते त्वम्प्रत्यगात्मनि तदा भगवत्यनन्त आनन्दमातृपपन्न समस्तशक्तौ भक्तिं विधाय परमांसनकैर्विद्या ग्रन्थिम् विभेष्यतिहमिति प्ररूढम् संयच्छरोसं भद्रं ते प्रतीपं श्रेयसां परम् श्रुतेन भूयि सा राजन्नगतेन यथाभयम् येनोपसिष्टात् पुरुषाल्लोक उद्वीजते भृशम् न बुधस्तद्वृषम् गच्छेदिच्छन्न भयमात्मनः हेदरम् गिरिसभ्रातुर्सनदस्य त्वया कृतम् यज्जघ्नीवान् पुण्यजानान् जनान् भ्रातृघ्ना नीत्यमर्शितः सम्प्रसादसिन्दवस्तासु सन्नत्या प्रसयोक्तिः न यावन्महतां ते जकुलं नोऽभिभवष्यति एवं सायम्भुवपौत्रं मनुषाशस्य मनुर्सुवं तेनाभिवन्दितशाकं ऋषिभेश्व ययौ इति मद्भागते चैतां तत् स्कन्दे